गणेशपुराणम् उपासनाखण्डम् अध्यायं ट्वेन्टिसिक्स् विश्वामित्र उवाच एकस्मिन् दिवसे शुभग्रहयुते लग्ने शुभे वासरे योगे चारुबले जने च नगरे नानाविधे मेलिते मालां रत्नमयीं ददौ नरपते राज्ञी करेणोकरे सम्प्रार्थ्य द्विरदं कुरुष्व नृपतिं लोकेषु यस्ते मतः तां राज्ञां प्रतिगृह्य वारणपदि संरञ्जितो धातुभिर्बभ्राम द्विजबन्दि चारणगणैराशासिदः सर्वतः नानावाद्यकरैर्वृदो नृपभडैराज्यार्थिभिः पुरुषै सर्वजनं सभापरिगदं यादो बहिः पत्तनाद तन्नगरे शिशूनधपदीन् कृत्वा पुरोऽवस्थितान् सज्जार्थं विविधा नराश्च बहुधाश्रेणीमुखाश्च स्थिताः ते सर्वे विमनस्कदां परिगदा स्वं, स्वं गृहं चागता यादेस्मिन् गहने करिण्यध पुरो यादा गजस्तु याधः कमलाः सुदं तं सम्पूजयन्तं द्विरदाननं तं दृष्ट्वैव तस्मिन्निदधे समालां पश्यत्सु लोकेषु वस्त्राणि माल्यानि जभूषणानि दक्षाय दत्तानि तदैव लोकैः ज्ञात्वा मदम्पौरजनस्य राजा राज्ञः प्रकृत्योरुभयोस्तदैव भवन् दुर्वाद्यसंखाश्च अनेकशः मुमुचुपुष्पवर्षं ते देवा हर्षयुता शुभम् उपविष्टास्तदा लोका यथास्थानं यथाक्रमं नेमुच्छदं दक्षनृपममात्यद्वयसंयुधं ताम्बूलानि जवस्त्राणि जनेभ्यः प्रददौ नृपः ब्राह्मणान् पूजयित्वैव दत्त्वा दानान्यनेकशः सम्पूज्यमातरे तां तु वस्त्रालङ्करणादिभिः दापयामासदानानि ब्राह्मणेभ्यो यथाविधि नर यानि समारोप्य स्वयमारुरुहे गजम् अलङ्कृतं सिक् मार्गं पताकाध्वजसंयुतम् अश्वारूठावमात्यौ तौ पुरस्कृत्य ययौ पुरं स्तुवन्ति बन्दि नः पौरा नृत्यन्त्य अप्सरः सः गाननिष्णादा धावित्वा यान्त्यमुं पुरह। जयशब्दैर्नमः शब्दो वाद्यशब्दो गमद्दिवं नृपद्वारं समासाद्य नत्वा केचिद्गृहं सभायां विविशुः सर्वे सङ्ख्यातीता नृपास्तदा नृयानं प्रशयामास मुद्गलाय महामतिः छक्रं ध्वजं चामरं च सुमन्तुं प्रकृतिं तथा आयान्दं मुद्गलं दृष्ट्वा स्वासनात्पुरतो ययौ सकिरीडेन शिरसा पादयो प्रणनामतं न्यवेश यत्स्वासने तेनाज्ञाप्तोऽन्य उपविष्टो राजशङ्खायः पूजयामास मुनिम् गाम् गां चापि प्रददौ तत्र ब्राह्मणाय महामतिः उवाच तं नृपो दक्षो महिमाज्ञादो लोकैरेतैर्महानयम् शरीरे चारुताराज्यप्राप्तिश्च त्वत्प्रसादः क्व सावस्था पूर्वतनो क्वो दृराज्यं महामुने विनायकमहं जाने त्वामेव मुनिसत्तमा पुनर्मेमस्तके ब्रह्मन्निधेहि करपङ्कजं येनाहं सर्वकामानां भाजनं स्याच्चिरं मुने विश्वामित्र उवाच आकर्ण्यवचने तस्य मुद्गलो धाब्रवीचतं न ते भयं रिपुकृतं भविष्यति कदाचन यं यं कामयसे कामं सर्वतस्ते भविष्यति तदस्तस्मै ददौ ग्रामान् वासो रत्नधनाधिकम् अन्येषां ब्राह्मणानां च गोधनान्यंशुकानि च आशीर्भिरभिनन्द्याध युयुस्ते ब्राह्मणागृहम् अमात्याभ्यां गृहेभ्यश्च ददौ ग्रामाननेकषः प्रसादं कारयामास गणेशस्य बृहत्तरं कुण्डिने नगरे तस्मिन् प्राक्तनं संस्थितं लघुं विसर्जयामास सभां प्रविवेशगृहं नृपः आययौवल्लभस्तत्र श्रुत्वा वार्तां जनेरितां वीरसेनो नरपति स्वां सुतां पदिमिच्छतीं ददौ तस्मै स्वप्नगदं गणेशस्याज्ञया शुभं दक्षाय राज्ञे महदे तस्मात् तस्या भवत्पुत्रो बृहद्भानुरिति श्रुतः ततो भवत् खड्गधरः सुलभस्तत्सुतो भवत् पद्माकरस्तत्तनयो वपुर्दीप्तस्तु तत्सुधः चित्रसेनस्तत्सुतोभूचित्रसेनात्वमेव हि ब्रह्मोवाच विश्वामित्रमुखात् सर्वं श्रुत्वा वंशपरम्परां ततः स नरशार्दूलो भीमो नाम महीपतिः सन्तोष्य तं मुनिं प्रार्थ्य पप्रच्छद्विजपुङ्गवं भीम उवाच विनायकः कदा मे स्यात् सुप्रसन्नो महामुने तमुपायं वद विभो येन मे तदनुग्रहः कदा कं कृतकृत्यस्यां दृष्ट्वा देवं गजाननं यदि श्रीगणेशपुराणे उपासनाखण्डे परम्परावर्णनं नाम षड्विंशोऽध्यायः ओ